ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं सेवन् लोकज्ञानवर्णनम् सूत उवाच तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः शर्वर्यं ते प्रकुरुते ब्रह्मातूत्सर्गकारणात् ब्रह्मा दुसलिले दुसल तस्न्युर्भूद अंधकाराणवे तस्न स्थावर जमे जल नमन्यत पृथिवीतले प्रविभागेन भूदेशु सत्यमात्रेस्तिदेशु वा। निशायामिव खद्योदःप्रावृत्काले तदस्तदा तदा कामेन तरसा मन्यामानस्वयं धिया सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवं ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम् अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः चकारतन्तुदेवोऽधपूर्वकल्पादिषु स्मृतः सत्यं रूपं वराहस्य कृत्वाम्भोनुप्रविश्य च अद्भिः संच्छादितामि चन् पृथिवीं सप्रजापतिः उद्धृत्योर्वीमथन्यस्ता सापत्यां तामदिन्यसद सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च पृथक्तास्तु समीकृत्य पृथिव्यां शोचिनोद्गिरीन् प्राक्सर्गे सर्गे दह्यमाने तु पुरा संवर्तकाग्निना तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः शैल्यादे कार्णवेतस्मिन् वायुनायेतु संहिताः निषिक्ता यत्र यत्रा संस्तत्र तत्राचलो भवद स्कन्दाचलत्वादचलाः पर्वभिः पर्वदा स्मृताः गिरयोगि निगीर्णत्वाद्दयनात्तुशिलोचयाः ततस्तावा समुद्धृत्यक्षिदिमं तर्जलात् प्रभुः सप्तर्षा तै दीपु सषमा समीकृत शिलार गिरीवीपु तुम वर्षा चुरी शतःपता वर्षाते समस्थिता स्वर्गादौ कान्दिविष्टास्ते स्वभावेनैव नान्यथा सप्तद्वीपाः समुद्राश्च अन्योन्यस्यानुमण्डलम् सन्निविष्टास्वभावेन ग्रहैः सह पूर्ववन्निर्म मे सर्वशः कल्पस्य चास्य ब्रह्मा चासृज्यस्तानि नः सुरान् आपोऽग्निं पृथिवीं दिवं तथा स्वर्गं दिश समुद्राश्चं नदी सर्वां स्तुपर्वतान् ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधां लवा काष्ठाकलाश्चैव मुहूर्तान् सन्धिरात्र्यहान् अर्धमासांश्च अयनाब्दान् युगानि च स्थानाभिमानिनश्चैव स्थानानि च प्रधा स्थानात्मनस्तु सृष्ट्वा च युगावस्थाविनिर्ममे कृतं तिष्यञ्चैव तथा युगं कल्पस्यादौ कृतयुगे प्रथमं सोऽसृजत्प्रजाः प्रागुप्ताश्च मया तुभ्यं पूर्वे कल्पे प्रजास्तुताः। तस्मिन् संवर्तमाने तु कल्पे दग्धास्तदग्निनाम् अप्राप्तायास्तपो लोकं पृथिव्यां व्याः समासदा आवर्धन्ते पुनः वीक्षार्थं ता भवन्ति वीक्ष्यार्थं तास्तिदास्तत्र पुनःसर्गस्य कारणाद् ततस्तासृज्यमानास्तु सन्तानार्थं भवन्ति हि धर्मार्थकाममोक्षाणामिहता साधिता देवाश्च पितरश्चैव क्रमशो मानवास्तथा ततस्ते तपसा युक्तास्तान्या पूरयन्पुरा ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि आसङ्गद्वेषयुक्तेन कर्मणादे दिवङ्गदाह आवर्तमानास्ते देहे सम्भवन्ति युगे युगे स्वकर्मफलशेषेण ख्याताश्चैव तदात्मकाः सम्भवन्ति जने लोकाकल्पागमनिबन्धनाः अप्सु यः बोधयन् कर्मणा जनलोकाशुभाशु गृह शरीराषु दु आपदे परस्पर तेध्या प्रायश्य प्रतिपेदी तस्मा तान्येव प्रतिपेदिरे पुनः पुनस्ते कल्पेषु जायन्ते नामरूपिणः तदसर्गोह्युपसृष्टिं शिसृक्षोर्ब्रह्मणस्तु वै ताः प्रजाध्यायतस्तस्य सत्याभिध्यायिनस्तदा मिथुनानां सहस्रं तु मुखात् समभवत् किल जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्तात् सुतेजसः चक्षुषोऽन्यत्सहस्रं तु मिथुनानां ससर्जः ते सर्वे रजसोद्रिक्ता शुष्मिणश्चाप्यमर्षिणः सहस्रमन्यदसृजद्बाहूनाम सदां पुनः रजस्तमोऽभ्यामुद्रिक्ता गृहशीलास्ततः स्मृताः आयुष ओन्ते प्रसूयन्ते मिथुनान्येव वासकृद ूकाूका उत्प्य मुमूर्षुण खुदकुलमत्द शरीर त्यजु ततः प्रभृति कलपेस्थुना चवे न मनसा प्रजा जाये शब्दादि शब्दादिविषयशुद्धः प्रत्येकं पञ्चलक्षणम् इत्येवं मानसैर्भावैः प्रेष्टं तिष्ठन्ति चाप्रजाः तदान्वयास्तु तथान्वयास्तु सम्भूता यैरिदम्पूरिदं जगत सरित्सरत्समुद्राश्चम् सेवन्ते पर्वतानपि तदा ताह्यल्पसन्तोषा युद्धे तस्मिंश्चरन्ति वै आहारं व्याहरन्ति च ताः प्रजा कामचारिण्यो सिद्धिमिच्छतः तुल्यमायुत्सुखं रूपं तासामासीत्कृते युगे धर्म धर्मौ तदा नष्टकल्पादौ प्रथमे युगे श्वेन स्वेनाधिकारेण जिरे दुयुगे युगे, युगे। चत्वारि तुसहस्राणि वर्षाणां दिव्यसङ्ख्यया आदौ कृदयुगं प्राहुसंध्यां शौचदुःसदौ तदसहस्रशस्तास्तु प्रजासुप्रथितास्विह न तासाम्प्रदिघातोस्ति न ना द्वन्द्वं नापि चक्रमः पर्वतोदधिवासिन्यो ह्यनिकेदाश्रया स्तुताः विशोकाः सत्त्वबहुला एकां तसुखिनः प्रजाः ताः शश्वत्कामचारिण्यो न त धर्मस्यप्रक्रियातुसा, नोद्विजानोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा नात्यर्थं ह्युष्णशीतलः मनोभिलषिधकामस्तासां सर्वत्र सर्वदा उत्तिष्ठन्ति पृथिव्यां वै तेषां ध्यानैरसातलाद बलवर्णकरी तेषां जरारोगप्रणाशिनी असंस्कार्यैशरीरैस्तु स्थिरयौवनाः तासां विनादुसङ्कल्पाज्जायन्ते सिधुना प्रजाः समं जन्म च रूपं च प्रीयन्ते चैव ताः तदा सत्यमलोभश्च सन्तुष्टिश्च सुखं दमः निर्विशेषाश्च ताः शर्वा रूपा युशिल्पचेष्टितैः अबुद्धिपूर्विका वृत्तिः प्रजानां भवति स्वयम् अप्रवृत्तिकृतद्वारे कर्मणः शुभपापयोः वर्णाश्रमव्यवस्थाश्च न तदा वर्तयन्ति परस्परम् तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः सुखप्राया विशोकाश्च उत्पद्यन्ते कृते युगे लाभालाभौ न वा स्यादा मित्रामित्रौ प्रिया प्रियौ मनसा विषयस्तासां निरीहाणां प्रवर्तते नादिहिं संति वान्योन्यं ननुगृह्णन्ति वै ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते प्रवृत्तं द्वापरे युद्धम् स्तेयमेव कलौ युगे सत्वं त्वं कृतं रजस्त्रेधाद्वापरं तु रजस्तमः कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुणेषु तत् कालकृतयुगे त्वेष तस्य सन्ध्यां निबोधत चत्वारि द्हस्राणि वर्षाणां तत्कृतं युगं साध्यां शौस्तस्य दिव्यानि शतान्यष्टौ दुः संख्यया चत्वारेव सहस्राणि वर्षाणां मानुषाणि तु तदा तासु भवन्त्यासु नोत्क्रोशाच्च विपर्ययाः तदकृतयुगे तस्मिन् स सन्ध्यां स्ये गदा पादावशिष्टो भवति युगधर्मस्तु सर्वशः सन्ध्यायास्तु व्यतीतायाः सान्ध्यकालो युगस्य सः पादमिश्रावशिष्टेन सन्ध्याधर्मे पुनः पुनः एवं कृतयुगे तस्मिन्निःशेषे तर्धदे तदा तस्यां च सन्धौ नष्ठायां मानसी प्रजा। सिद्धिरन्ययुगे तस्मिं त्रेदाख्येनं तरे कृताद सर्गादौ या मयाष्टौ दो मानस्यो वै प्रकीर्तिताः अष्टौ ताक्रमयोगेन सिद्धयो यान्ति सङ्क्षयं कल्पादौ मानसी ह्ये का सिद्धिर्भवति सा मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः वर्णाश्रमाचारकृतकर्मसिद्ध्युद्भवः कृतः सन्ध्याकृतस्य पादेन सङ्क्षेपेण वशात्ततः कृतसन्ध्यां शकाह्येते त्रीनादाय परस्परम् ीयं ते युगधर्मास्ते तपश्रुदबलायुषः कृते कृतां चेति ते तु बभूव तदनन्तरं त्रेदायुगसमुत्पत्तिस्सां सा च ऋषिसत्तमाः तस्मिन्क्षीणे कृतांशे वै तासुशिष्टः ष्टासु सप्तसु कल्पादौ सम्प्रवृत्ताया श्रेतायाः प्रमुखे तदा प्रणश्यति तदा सिद्धिकालयोगेन नान्यथा तस्यां सिद्धौ प्रनष्टाया मन्यासिद्धिरजायत अपांशौ तौ प्रदिगदौ तदा मेखात्मना तु वै मेखेभ्यस्तनयधृभ्यः प्रवृतं वृष्टिसर्जनं सकृदेवतया वृष्ट्या संसिद्धे पृथिवीतले प्रजा आसंस्तदस्तासं वृक्षाश्च गृहसंज्ञिताः सर्वप्रत्युपभोगस्तु तासां तेभ्यो व्यजायत वर्तयन्ते स्म प्रजाः ततःकाले न म सङ्गलोलात्मको भावस्तदा ह्याकस्मिको भवत यत्तद्भवति तदार्तवं तदा तद्वै न भवति पुनर्युगबलेन तु तासां पुनः प्रवृत्तं तन्मासि तदस्तेनैव योगेन वर्तते मैथुनं तदा तेषां तत्कालभावित्वान् मासि मास्युपगच्छताम् अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदा भवत् विपर्ययेण तेषां तु तेन तत्कालभाविता प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञदाः ततस्तेषु प्रनष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः अभिध्यायन्ति ताः सिद्धिं दुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञाः वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च तथैव जायते तेषां गन्धर्वाणां रसान्वितम् आन्वीक्षिकं महावीर्यं पुटके पुटके मधु तेन ता वर्धयन्ति स्म मुखे त्रेदायुगस्य वै हृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विकतज्वराः ततःकालान्तरेप्येवं पुनर्लोभावृताः प्रजाः वृक्षां स्तात्पर्यगृह्णं त मधुवा माक्षिकम्बलाद तासां तेनापचारेण पुनर्लोभकृतेन वै प्रनष्टा प्रभुणा सार्धं कल्पवृक्षा क्वचित् क्वचिद् तस्यामे वाल्पशिष्टायां सिद्ध्यां कालवशात् तदा वर्तं ते चानया शीतवादातपास्तीव्रास्ततस्ता दुःखिताभृशं द्वन्द्वैस्तैपीड्यमानास्तु चुक्रुरावृणानि वा कृत्वा द्वन्द्वप्रतियादं निकेतानि विचेतसः पूर्वनिकामचारास्तेक्ष्यनिकेता यथाभवन् यथा योगं यथा प्रीतिनिकेतेष्वसन्पुरा मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च संस्रजन्ति च दुर्गाणि धन्वपावर्तमौदकं यथा जोषं यथा कामं समेषु विषमेषु च आरधस्ता के कर्म शीतोषणा ततस्तायासुडा च पुरा चा भागं तथ नगरा च तेषामायामविष्कम्भास्सन्निवेशान्तराणि मा चक्रुस्तथा यथा ज्ञानं मी त्वा मीत्वाऽऽऽत्मन अङ्गुलैः मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे ययाङ्गुलप्रदेशां स्त्रीन्हस्तिष्कुं धनुंषि च दशत्वङ्गुलपर्वाणि प्रादेश इति संनिधः अङ्गुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते तालस्मृतो मध्यमया गोकर्णश्चाप्यनामया कनिष्ठया वितस्तिस्तु द्वादशाङ्गुल उच्यते रत्निरङ्गुल पर्वाणि सङ्ख्यया त्वेकविंशतिः चत्वारि विंशतिश्चैव हस्तस्यादङ्गुलानि तु किष्कुस्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलः चतुर्हस्थो धनुर्दण्डो नालिकायुगमेव च धनुसहस्रे द्वे तत्र गव्युधिस्थैकृता तदा अष्टौ धनुसहस्राणि योजनं तैर्विभावितं ये तेन योजनेनेह सन्निवेशास्तदकृताः चतुर्नामधदुर्गाणां स्वयमुद्धानि त्रीणि च चतुर्थ कृत्रिमं दुर्ग तस्य वक्ष्यामि निर्णयं सोत्सेधरन्ध्रप्राकारं सर्वध खादकावृतं रुचकप्रतिकद्वारं कुमारीपुरमेव च द्विहस्तस्रोतः सां तस्रोधो दशश्रेष्ठो नवहस्तोष्ठ एव च खेडानां च पुराणाञ्च ग्रामाणाञ्चशः त्रिविधानां च दुर्गाणां पर्वतोदगधन्विना कृत्रिमाणां च दुर्गाणां विष्कम्भायामेव योजनादर्धविष्कम्भमष्टभागाधिकायतं परमार्थार्थमायामं प्रागुदप्लवनं पुरं छिन्नकर्णविकर्णं च व्यजनाकृतिसं स्थितं वृत्तं वज्रं च नगरं न प्रशस्यते चतुरस्रयुधं दिव्यं प्रशस् तं तैः पुरं कृतम् चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम् अत्र मध्यं प्रशंसन्दि ह्रस्वं काष्ठविवर्जितम् अथ किष्कुशतान्यष्ठौ प्राहुर्मुख्यं निवेशनं तदूर्ध्वतः नगराद्यो जनं केडं खेडाग्रामोर्ध्वयो जनं द्विक्रोशः परमासीमा क्षेत्रसीमा चतुर्धनुः विंशद्धनुंषिविस्तीर्णो दिशा मार्गस्तु थैकृतः विंशद्धनुर्ग्राममार्गसीमार्गो दशैव तु धनुंषि दशविस्तीर्णश्रीमान् राजपथकृतः नृवाजिरथनागानामसम्बाधस्तु सञ्चरः धनुंषि चापि चत्वारि शाखारध्याश्चतैर्मिताः त्रिकारद्योपरध्यास्योर्द्विकाश्चाप्युपरध्यकाः जङ्कापदश्च दुष्पादस्त्रिपदञ्च गृहान्तरं धृतिमार्गस्तूर्ध्वषष्ठं क्रमशः पथिकस्मृतः आवस्कारपरिवारपादमात्रं समं ततः कृतेषु तेषु स्थानेषु वृक्षास्तु गृहसंस्थिताः तथा कर्तुं पुनःपुनः वृक्षस्यार्वाग्गता शाखा इतश्चैव परा गताः अधवोर्ध्वं गताश्चान्या एवं तिर्यगताः पराः बुद्ध्यान्विष्य यथा न्यायं वृक्षशाखा कृतास्तु तैः शाखास्तस्मालास्तु ताः स्मृताः एवं प्रसिद्धा शाखाभ्यशालाश्चैव गृहाणि च तस्मात्ताश्च स्मृता शाला शालात्वं तासु तस्मृतम् यतस्तेषु ततः प्रासादसंज्ञितः तस्माद्गृहाणिशालाश्च प्रासादाश्चैव संज्ञिता कृत्वा द्वन्द्वाभिकादांस्तान्त्वार्थोपायमचिन्तयान् नष्टेषु मधुना कल्पवृक्षेषु वै विषादव्याकुलस्ता वै प्रजा सृष्टास्तु दर्शिताः ततः ता प्रादुर्बभौ ताः सां सिद्धित्र यदा युगे तदा सर्वार्थसाधकाह्यन्या वृष्टिस्तासां निकामतः तासाम् वृष्युतका निहया मिष्ट प्रवृत्तस्तु द्विए सर्जने ये परस्ता दोका संपता पृथिवीतलें भूमेस्तु संयोगा दोषध्यस्तावन पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे अफालकृष्टाश्चानुक्ता ग्राम्यारण्याश्च दुर्दश ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे प्रादुर्भोदास्तु त्रेधाया मायामौषधस्य वा तदौषधेन वरुतं ते प्रजास्त्रेदा मुके तदा तद पुनर्भूतासां रागो लोभस्तु सर्वदा अवश्यभाविनार्थेन त्रेधा युगवशेन च ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतानि वृक्ष गुलमौषधी प्रशह्यु यहां सिद्धांमनस्तु पूर्व्या माया ब्रह्मणो मानसस्ते उत्पन्नाये जनादिह। जना शांता सुनश्चर्मो दुखिता तद आवर्तमान्रेदायां चज्न ब्राह्मणा क्षत्रिया वैश्या शूद्रद्रो हजना भावता पूर्वजादी सुख्याभ पतस्ते प्रबलाु सत्यशीला अहिंसका वीतलोभाजिदत्म निवस वै पिग्रह नुंति वद उपस्थिता बलाश्च परिचर्यासु वर्तं तेभ्यश्चान्येऽल्पते जसफ एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परं तेन दोषेण वैशान्ता ओषद्भ्यो नितरां तदा प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकथा यथा अथास्य ग्राम्या फलै ग्राम्यादश फलगृहुष्च तूलैश्चपुन ततस्तासु प्रनसु विभ्रांता प्रजास्द क्षुदाई सर्वा जग्स्ता वै स्वयं भुव वृत्थम लिप्सं त्यो ह्यादौ त्रेदायुगस्य ब्रह्मा स्वयं भूर्भगवान् ज्ञात्वा तासां मनीषितम् पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः शद्यो ज्ञात्वा प्रत्यरुहत्पुनः कृत्वा वत्सं समेरुन्तु दुदोहपृथिवीमिमां दुग्धेयं गौस्तदा तेन बीजानि वसुधातले जग्निरेतानि बीजानि ग्रामारण्यास्तुताः प्रभुः ओष्रध्यः फलपाङ्गां ताः क्षणसप्तवशास्तु व्रीषयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः प्रियं गव उदारास्ते कोरदुष्टाः स वामकाः माषामुद्गामसूरास्तु निवारास्सुलद्धकाः हरिकाश्चरकाश्चैव गणसप्तदश इत्येदावौषधीनां दुर्ग्राम्याणां जातय स्मृताः श्यामाकाश्चैव निवारा जर्तिलाः सगवेधुकाः गुरुविन्दो वेणुयवास्तामादीर्काडकास्मृताः ग्रामारण्या स्मृता ह्येदा ओषध्यस्तु च दुर्दश उत्पन्ना प्रथमस्य इदा आदौ त्रयदा युगस्यः अभालकृष्टास्ताः सर्वा ग्राम्यारण्याश्च दुर्दश वृक्षगुल्मलदा वल्यो विरुद्धस्तृणजादयः मूलैफलैश्च रोहैश्च गृह्णन्पुष्टाश्च यद्फलम् पृथ्वी दुग्धा बीजा यानी पूर्व स्वयंभुवा ऋतुपुष्पलास्ता वै ओषिरेत् प्रसृष्टा ओषध्यो न प्रथमतीहया पुनः ततस्तासाच वृत्वायच तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजां ततः प्रभृति चौषध्यकृष्टपच्यास्तु जज्ञिरे संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः मर्यादां स्थापयामास यया रक्षत् परस्परं ये परिगृहीतारस्तासामासन् बलीयसः इदरेषां कृतत्राणां स्थापयामास क्षत्रियान् उपतिष्ठन्ति यावन्तो निर्मितास्तथा सत्यमबृद यथाभूतं ध्रुवं वो ब्राक्मणस्तुताः ये चान्येष्य बलास्तेषां संरक्षा कर्मणि स्थिताः क्रीतानि नाशयन्ति स्म पृथिव्या देव्यवस्थिताः वैश्यानित्येवतानाहुकीनाशान्वृत्तिसाधकान् सेवन्तश्च द्रवन्तश्च परिचर्या सुये रताः निजस्वल्पवीर्याश्च शूद्रां स्थानब्रवीचसः तेषां कर्माणि धर्मांश्च ब्रह्मादुव्यतथा प्रभुः संस्थित्यां तु कृतायां हि या दुर्वर्ण्यस्य तेन वै पुनः प्रजास्तुता मोहाधर्मं तं नान्वपालयन् वर्णधर्मैश्च जीवन्त्यो व्यरुध्यं तपरस्परं ब्रह्मा बुद्धाद् तत्सर्वं याधा याधातभ्येन सप्रभुः क्षत्रियाणां बलं दण्डं युद्धमाजीव्यमादिश याजनाध्यापने ब्रह्मा तथा दानप्रदिग्रहम् ब्राह्मणानां विभुस्तेषां कर्माण्येदान्यथादिशत् पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ शिल्पा जीवभृताञ्च शूद्राणां व्यदधात् पुनः सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः यजनाध्यापने दानं सामान्यानि तरेषु च कर्मा जीवन्तु वै दत्वा तेषामिकपरस्परं तेषां लोकान्तरे मूर्ध्नि स्थानानि विदधे पुनः प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम् स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनां वैश्यानां मारुदं स्थानं स्वस्वकर्मोपजीविनां गान्धर्वं शूद्रजातीनां परिचर्ये च तिष्ठतां स्थानान्येतानि वर्णानां योग्याचारवतां सताम् संस्थित्यां सुकृतायां वै चादुर्वर्ण्यस्य तस्य तद् वर्णास्तु दण्डभयत स्वे वर्ण्ये व्यवस्थिताः ततस्तिदेशु वर्णेषु स्थापयामास्याश्रमान् बृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा आश्रमां चतुरोह्येदान् पूर्ववस्थापयन् प्रभुः वर्णकर्माणि ये केचित्ते शामिकचदुर्भवः कृतकर्म कृता, कृता वास आश्रमादुपभुञ्चते ब्रह्मातान् स्थापयामास आश्रमान् भ्रामता निर्दिदेश ततस्तेषां ब्रह्मा धर्मान् प्रभाषते प्रस्थानानि तु तेषां च यमान् संयमांस्तथा चतुर्वर्णात्मकः पूर्वं गृहस्तस्याश्रमस्थितः त्रयाणामाश्रमाणां च वृत्तियोनीति चैव हि यथा क्रमञ्च वक्ष्यामिव्रतैश्च नियमैस्तथा दाराग्नयश्चातिथय इष्टा श्राद्धक्रियाः प्रजाः इत्येष वैगृहस्तस्य समासाद्धर्मसङ्ग्रहः दण्डी च मेखली चैव अधशायी तथा गुरुशुश्रूषणं भैक्ष्यं विद्यार्थीब्रह्मचारिणः क्षीरपत्रादिनानि स्युर्वनमूलफलौषधैः उभे सन्ध्ये वगाहश्च होमश्चारण्यवासिनां विपन्नमुसले भैक्ष्यमस्तेयं शौचमेव च अप्रमादोऽव्यवायश्च दयाभूतेषु चक्षमा श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतं दशलक्षणकोक्ष्येष धर्मप्रोक्तस्वयंभुवा भिक्षोर्व्रतानि पञ्चात्र भाक्ष्यवेदव्रतानि च तेषां स्थानान्यशुष्मिं च संस्थिता नाम चष्ठसः अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेधसां स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयं योगिनामकृतं स्थानं ताना जित्वा न विद्यते स्थानान्याश्रमिणस्थानि ब्रह्मस्थानस्थितानि तु चत्वार एव पन्थानो देवयानानि निर्मिताः पन्थानः पितृयानास्तु स्मृताश्चत्वार एव ब्रह्मणालोकतन्त्रेण आद्ये मन्वन्तरे पुरा पन्थानो देवयानां ये तेषां द्वारं रविस्मृतः तथैव पितृयानानां चन्द्रमाद्वारमुच्यते एवं वर्णाश्रमाणाञ्च प्रविभागे कृते तदा यदा प्रजाना वर्धन्तवर्णधर्मसमासिकाः तदो ज्ञामानसीं स्वां वै त्रेदा मध्ये सृजत् प्रजाः आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तुदाः तस्मिस्त्रेदायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु तदोन्यां मानसीं शोधप्रजा स्रष्टुं प्रचक्रमे तदसत्त्वरजोदृक्ताः धर्मार्थकाममोक्षाणां वार्तानां साधकाश्च याः देवाश्च पितरश्चैव मनवस्तथा युगानुरूपा धर्मेण यैरिमा वर्धिताः प्रजाः उपस्थिते तदा तस्मिन् सृष्टिवर्गे भुवः अभिध्याय प्रजा ब्रह्मा नानावीर्यास्वमानसीः पूर्वोक्ताया मया तुभ्यञ्जनानीकं समाश्रिताः कल्पेति पुराण्यासि पुराण्यासीद्देवाद्यास्तु प्रजा इह ध्यायतस्तस्य तानीह सम्भूत्यर्थमुपस्थिताः मन्वन्तरक्रमेणेह कनिष्ठाः प्रथमे न ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिहभाविताः कुशला कुशलैः कन्दैरक्षीणैस्तैस्तदायुताः तत्कर्मफलदोषेणह्युपबाधा प्रजज्ञिरे देवासुरपितृंश्चैव यक्षैर्गन्धर्वमानुषैः राक्षसैस्तु वृक्ष नारक शाचस्त पशुपक्षिशीसृप् रूपस्तिताः आहारार्थं प्रजा वै विदात्मानो विनिर्ममे इदिश्री ब्रह्माडे महापुराणे वायुप्रोक्तो पूर्वभागे द्वितीयेऽनुशङ्कपादे लोकज्ञानवर्णनन्नाम सप्तमोऽध्यायः ओ